नारदपुराणम् पूर्वार्थम् अध्यायम् हण्ड्रेड् अण्ड् इलेवेन् सनातन उवाच शृणुविप्रवक्ष्यामि द्वितीयाया व्रतानि ते यानि कृत्वा नरो भक्त्या ब्रह्मलोके महीयते चैत्रशुक्लद्वितीयायाम् ब्रह्मणाम् च स शक्रेकम् हविष्याग्नेन गन्धाध्यै स्तोष्य सर्वक्रदूद्भवं फलं लब्ध्वाखिलान् कामानन्दे ब्रह्मपदं लभेद अस्मिन्नेवने विप्र बालेन्दुमुदिदं परे समभ्यर्च्य निशारम्भे भुक्तिमुक्त्रिफलं भवेद अथवास्मिन् दिने भक्त्या दस्रावभ्यर्च्य यत्नदः सुवर्णरचते नेत्रे प्रदद्या च द्विजातये पूर्णयात्राव्रते ह्यस्मिन् दध्ना वापि कृतेन च नेत्रव्रतम् द्वादश वत्सरान्वै कृत्या भवेद्भूमि पदेर्द्विजेन्द्र सुरूपोरिगणप्रताबी धर्माभिरामो नृपवर्गमुख्यः राधशुक्लद्वितीयायाम् ब्रह्मणम् विष्णुरूपिणम् समर्च्य सप्त धान्यान्याढ्यकुम्भोपरि विधानदः दिभुक्त्वा भोगान् मनोरमान् ज्येष्ठशुक्लद्वितीयायाम् भास्करम् भुवनाधिपं चतुर्वक्त्रस्वरूपं च समभ्यर्च्यविधानदः भोजयित्वा द्विजान् भक्त्या भास्करं लोकमाप्नुयाद आषाठस्य सिदे पक्षे द्विदिया पुण्य संयुता तस्यां रथम् समारोप्य रामम् सह सुभद्रया द्विजादिभिर्व्रदि सार्धम् परिक्रम्य पुरादिकं जलाश्रयान्तिकम् गत्वा कारयेच्च महोत्सवम् तदन्ते भवने निवेश्य जयधा विधि ब्राह्मणान् भोजये चैव व्रदस्यास्य प्रपूर्तये नभुप्रद्वितीयायाम् विश्वकर्मा प्रजापतिः स्वपितिदितिधिपुण्या ह्य शोकशयनाह्वया सशक्तिकदु शय्याष्टम् पूजयित्वा चतुर्मुखम् इममुच्चारयन्मन्त्रम् प्रणम्य जगदाम् पतिम् श्रीवत्सधारिन् श्रीकान्तश्रीवात्सश्रीपदे प्रभो गार्हस्थ्यम् मा प्रणाश्य मे यादु धर्मार्थकामद चन्द्रार्थदानमत्रोक्तम् सर्वसिद्धिविधायकम् भाद्रशुक्लद्वितीयायां शक्ररूपं जगद्विधिं पूजयित्वा विधानेन सर्वक्रतुफलं लभेद अश्विने दानं प्रदत्तमे दस्यामनन्दलमुच्यते ऊर्ज यमो यमुनया पुरा भोजिदस्व गृहे तेन द्वितीयैषा यमाह्वया पुष्टिप्रवर्धनम् चात्र भगिन्या भोजनं गृहे वस्त्रालंकारपूर्वं तु तस्मै देयमदः परम् यस्यां तिथौ यमुनया यमराजदेवः संभोजिदो निचकरा स्वसृ सौहृदेन तस्यां स्वसु करतलादिहयो भुनक्तिप्राप्नोति रत्नधनधान्यमनुत्तमं मार्ग मार्गशुक्लद्वितीयायां श्राद्धेण पितृपूजनम् आरोग्यं लभते चापि पुत्रपौत्रसमन्वयः पौष शुक्लद्वितीयायां गोश्रृङ्गोदगमार्जनं सर्वकामप्रदं नृणामास्ते बालेन्दुदर्शनं योग्यदानेन बालेन्दुम् हविश्याशिजितेन्द्रियः पूजयेत्साज्य सुमने धर्मकामार्थ सिद्धये माकुक् द्वितीयायाम्भानुरूपं प्रजापतिं समभ्यर्च्य यथा न्यायं पूजयेद्रक्तपुष्पकैः रक्तैर्गं वैस्तथा स्वर्णमूर्तिं निर्माय शक्तिदः तदपूर्णं ताम्रपात्रं गाकृमैर्वापि तण्डुलैः समर्प्य देवे भक्त्यैव समूर्तिं प्रददे द्विजे एवं कृते व्रदे विप्र साक्षात् सूर्य इवोदिदः दुरासदो दुराधर्षो जायदे भुविमानवः इह कामान्वरां भुक्त्वा यात्यन्ते ब्रह्मणः सर्वदेवस्तुतो भीक्ष्णम् विमानवरमास्थिदः अधभाल्गुणशुक्लाया द्वितीयायाम् द्विजोत्तमः पुष्पै शिवम् समभ्यर्च्य सुश्वेतैश्च सुगन्धिभिः पुष्पैर्विदानकम् कृत्वा पुष्पालङ्करणैः शुभैः नैवेद्यैर्विविधैर्धूपैर्दीपैर्जनीराजनादिभिः जा प्रसाद्य प्रणमे चैव साष्टाङ्गम् पदितो भुविमभ्यर्च्य देवेश्यं मर्त्यो व्याधिविवर्जितः धनधान्यसमायुक्तो जीवेद्वर्षशतम् ध्रुवम् यद्विधानम् द्वितीयासु शुक्लपक्षगदासु वा प्रोक्तम् तदेव कृष्णासु कर्तव्यं विधिको विधैः वह्निरेव पृथङ्मासु नानारूपवपुर्धरः पूज्य देहि द्वितीया सुब्रह्मचर्यादिपूर्ववदत् इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशपाशद्वितीया व्रतनिरूपणं नाम एकादशाधिकशतमोऽध्यायः ओ